अथ चतुर्विंशः सर्गः ततः सीताम् समस्तास्ता राक्षस्यो विकृताननाः परुषम् परुषा नर्हामूचुस्तद्वाक्यमप्रियम् किम् त्वमन्तः पुरे सर्वभूतमनोरमे महार्हशयनोपेते न वासमनुमन्यसे मानुषी मानुषस्यैव वा भार्या प्रत्याहरमनो रामान्नैवम् जातु भविष्यति त्रैलोक्यवसुभोक्तारम् रावणम् राक्षसेश्वरम् भर्तारमुपसङ्गम्य विहरस्व यथा सुखम् मानुषी मानुषन्तम् तु राममिच्छसि शोभने राज्याद्भ्रष्टमसिद्धार्थम् विक्लवन्तमनिन्दिते राक्षसीनाम् सीता पद्मनिभेक्षणा नेत्राभ्यामश्रुपूर्णाभ्यामिदम् वचनमब्रवीत् यदिदम् लोकविद्विष्टमुदाहरत सङ्गताः नैतन्मनसि वाक्यम् मे किल्बिषम् प्रतिष्ठति न भार्या भवितुमर्हति कामम् खादत सर्वा न करिष्यामि दीनो वा राज्यहीनो भर्ता स गुरुः तम् नित्यमनुरक्तास्मि यथा सूर्यम् सुवर्चला यथा समुपतिष्ठति अरुन्धती वसिष्ठम् च यथा लोपामुद्रा यथा गस्त्यम् सुकन्याच्यवनम् यथा सावित्री सत्यवन्तम् च कपिलम् श्रीमती यथा सौदा यथा नैषधम् दमयन्तीव भैमीपतिमनुव्रता तथाहमिक्ष्वा कुवरम् रामम् पतिमनुव्रता सीताया वचनम् श्रुत्वा राक्षस्य क्रोधमूर्च्छिताः भर्त्सयन्ति स्म परुषैर्वाक्यैरावणचोदिताः अबलीनः स निर्वाक्यो हनुमान् छिंसपाद्रुमे सीताम् सन्तर्जयन्तीस्ता राक्षसीरशृणोत्कपिः तामभिक्रम्य संरब्धा वेपमानाम् समन्ततः भृशम् संलिलिहुर्दीप्तान् प्रलम्बान् दशनच्छदान् ऊजुश्च परमक्रुद्धाः प्रगृह्याशु परश्वधान् मेयमर्हति भर्तारम् राक्षसाधिपम् सा भर्त्स्यमाना भीमाभि राक्षसीभिर्वराङ्गना सा बाष्पमपमार्जन्ती शिंशपाम् तामुपागमत् ततस्ताम् शिंशपाम् सीता राक्षसीभिः समावृता अभिगम्य विशालाक्षी तस्थौ शोक परिप्लुता ताम् कृशाम् दीनवदनाम् मलिनाम् वरवासिनी भर्त्सयाञ्चक्रिरे भीमा राक्षस्यस्ताः समन्ततः ततस्तु विनता नाम राक्षसी भीमदर्शना अब्रवीत् कुपिताकारा कराला सीते पर्याप्तमेतावद्भर्तुः स्मेहः प्रदर्शितः सर्वत्रातिकृतम् भद्रे व्यसनायोपकल्पते परितुष्टास्मि भद्रम् ममापितुवचः पथ्यम् ब्रुवन्त्याः कुरु मैथिली रावणम् भज भर्तारम् भर्तारम् सर्वरक्षसा विक्रान्तमापतन्तम् च सुरेशमिव वासवम् दक्षिणम् च सर्वस्य प्रियवादिनम् मानुषम् कृपणम् रामम् त्यक्त्वा रावणमाश्रया दिव्याङ्गरागा वै देहि दिव्या अद्य प्रभृति लोकानाम् सर्वेषामीश्वरी भव अग्ने स्वाहा यथा देवी शचीवेन्द्रस्य शोभने किम् रामेण वैदेहि कृपणेन गतायुषा एतदुक्तं च मे वाक्यम् यदि त्वम् न, न, न करिष्यसि तस्मिन्मुहूर्ते सर्वास्त्वाम् भक्षयिष्यामहे वयम् अन्या तु विकटानामलम्बमानपयोधरा अब्रवीत्कुपितासीताम् सीताम् मुष्टिमुद्यम्यतर्जति बहोऽन्यप्रतिरूपाणि वचनानि सुदुर्मते अनुक्रोशान्मृदुत्वाच्च सोढानि तव मैथिली पारमन्यैर्दुरासदम् रावणान्तः पुरे रावणस्य गृहे रुद्धा अस्माभिस्त्वभिरक्षिता न त्वाम् शक्तः परित्रातुमपि साक्षात् पुरन्दरः कुरुष्वहितवादिन्या वचनम् मम मैथिली अलमश्रुनिपातेन त्यज शोकमनर्थकम् भज च त्यजन्ती नित्यदैन्यताम् सीते राक्षसराजेन परिक्रीडयथा सुखम् जानीमहे यथा भीरुस्त्रीणाम् यौवनमध्रुवम् यावन्नते व्यतिक्रामे तावत् सुखमवाप्नुहि उद्यानानि च रम्याणि पर्वतोपवनानि च सह राक्षसराजेन चरत्वम् मदिरे क्षणे स्त्रीसहस्राणि ते सुन्दरी रावणम् भज भर्तारम् भर्तारम् सर्वरक्षसा उत्पाट्य वा ते हृदयम् भक्षयिष्यामि मैथिली यदि मे व्याहृतम् वाक्यम् न यथावत्करिष्यसि ततश्चण्डोदरी नाम राक्षसी क्रूरदर्शना भ्रामयन्ती महच्छूलमिदम् वचनमब्रवीत् इमाम् हरिणशावाक्षीम् त्रासोत्कम्पपयोधरा रावणेन हृताम् दृष्ट्वा दौर्हृतो महानयम् यकृत्प्लीहम् महत्क्रोडम् हृदयं च सबन्धनम् गात्राण्यपि तथा शीर्षम् खादेयमिति मे मतिः ततस्त्वप्रघसा नाम राक्षसी वाक्यमब्रवीत् कण्ठमस्यानुशंसायाः पीडयामः किमास्यते निवेद्यताम् ततो राज्ञे मानुषी सा मृतेति ह नात्र ततस्त्वजामुखी नाम राक्षसीवाक्यमब्रवीत् विशस्येमाम् ततः सर्वान् समान् कुरुतपिण्डकान् विभजाम ततः सर्वा विवादो मेन रोचते पेयमानीयताम् क्षिप्रम् माल्यम् च विविधम् बहु ततः शूर्पणखा नाम सुराचानीयताम् क्षिप्रम् सर्वशोकविनाशिनी मानुषम् माम् समास्वाद्यनृत्यामोथनि कुम्भिला एवम् निर्भर्त्स्यमाना सीता सुरसुतोपमा राक्षसीभिर्विरूपाभिर्धैर्यमुत्सृज्य रोदिति इत्यादर्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे चतुर्विंशः सर्गः